रुणः षण् य बृहस्पतिः षण् विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि ऋतम् वदिष्यामि सत्यम् तन्मामवतो तद्भक्तारमवतु अवद्माम् अवद्वक्तारम् ओम् शान्तिः श्रीक्षाम् व्याख्यास्यामः पर्णः स्परः मात्रामलम् सामसन्धानः इत्युक्तस्येक्षाध्यायः सः नौ यशः सह नवब्रह्मवर्चनम् असादसम्हिताया पुनरगतम् व्याख्यास्यामः पञ्चस्पधिकरणेषु अधिलोकमधिज्योतिषमधिमधिप्रजमध्यात्मम् आमा इत्याचक्षते अर्थाधिलोकम् पृथिवीपूर्वरूपम् द्यवृत्तररूपम् आकाशः सन्धिः वायुः सन्धानम् इत्यधिलोकम् अर्थाधिज्योतिषम् अग्निः पूर्वरूपम् आदित्यवृत्तररूपम् सन्धानम् इत्यधिज्योतिषम् अथाधिविद्यम् आचार्यः पूर्वरूपम् अन्तेवास्युत्तररूपम् विद्या सन्धे प्रवचनगुम्सन्धानम् इत्यधिविद्यम् अथाधिप्रजम् मातापूर्वरूपम् हितोत्तररूपम् प्रजा सन्ते प्रयनगुम्सन्धानम् प्रजाम् अथाध्यात्मम् अधराहनः कोपलोपम् उत्तराहनरुत्तरलोपम् वाक्सन्धिह्वासन्धानम् एत्यध्यात्मम् इति मा महासगम्हिताः एवमेतामहासगंहिता व्याख्याता वेद सन्धीयतया प्रजया पशुभिः ब्रह्मवर्तेनाद्यवर्गेण लोकेन यच्छन्दसा विश्वलोभः बभूव समेन्द्रमेधया शृणोतु अमृतस्य देवधारणा भोयासम् शरीरम् मे विचरषणम् इक्वा मे मधुमत्तमार्णाभ्याम् भोजविश्रवम् ब्रह्मणः कोशा श्रुतम् मे गोपाय आवहन् देव तन्वाना कूर्वाणाचीरमात्मनः वासागुंसिंहगावश्च अन्नपाने च सर्वदा ततो मे श्रेमावह लोमसाम् पशुभिः सहस्वाहा <laughs> आमायन्तु ब्रह्मचारिण स्वाहा विमायन्तु ब्रह्मचारिण स्वाहा प्रमायन्तु ब्रह्मचारिण स्वाहा दमायन्तब्रह्मचारिण स्वाहा शमायन्तब्रह्मचारिण स्वाहा यशोजनेतानि स्वाहा श्रेयानिवश्यशोषानि स्वाहा अन्वाभगप्रविशाणि स्वाहा समाभगप्रविश स्वाहा तस्मिन् शास्त्रशाखे निभगान्वय स्वाहा यथावप्रवधायन्ते यथा एवम् माम् ब्रह्मचारिणः धातरायन्तु सर्वदस्वाः प्रतिवेशोऽसि प्रमा भारिप्रमा बद्यस्व भुवद्भुवस्व परिनिवारेतास्तिस्व व्याहृदयः ताता महस्मेताम् च दुःख्ये महाजमस्त्ययः प्रवेदयते महैरे तद्ब्रह्म स आत्मा अङ्गान्यन्या देवताः भोरिति वा अयम् लोकः भुवैत्यन्तरिक्षम् सुवैत्यसौ लोकः मा इत्यादित्यः आदित्येन वाव सर्वे लोकामहीयन्ते भोरिति वा अग्निः भुव इति वायुः सुवैत्यादित्यः मा इति चन्द्रमाहाः चन्द्रमसा वाव सर्वाणिज्योदेगम् हिमहीयन्ते भोरितिवारिजः सुपरितेजोगुंषे मह इति ब्रह्म ब्रह्मणा वावसर्वे वेदामहीयन्ते भोरिति वै प्राणः भुवैत्यपानः सुपरितिव्यानः महैत्यन्नम् अन्ने न वावसर्वे प्राणामहीयन्ते वा एताष्टदस्रः सतस्रष्टतस्राव्याहृदयः तायो वेद सवेदब्रह्म सर्वेऽस्मै देवा बलिमा वहन्ति स येषान्तरहृदयाकाशः तस्मिन्नयम् पुरुषामनामयः अमृताभिरण्मयः अन्तरेण कालुकेवावलम्बते सेन्द्रयोनिः यत्रा विवर्पदेशीर्षकपाले भोरित्यग्नौ प्रतिष्ठते भुवैदिवायौ परित्यादित्ये महेति ब्रह्मणि आत्मोजिस्वाराज्यम् आप्नोदिमनसस्पतिम् वा पदश्चक्षुष्पदिः श्रोत्रपदिर्विज्ञानपतिः एतत्ततो भवते आकाशरीरम् ब्रह्म सत्यात्मप्राणानामम् मनः आनन्दम् शान्तिसमर्थमृतम् विधिप्रायेन योग्योपास्व अग्निर्वायुरा नित्यश्चन्द्रमानक्षत्राणि आपोषध यौवनस्पदयाकाश आत्मा इत्यधिभूतम् तथा ध्यात्मम् प्राणाव्यानपानवदानः समानः चक्षोवात्मक ृणो चेते ओमि ओमिदगम् सर्वम् ओमित्यश्राभयेत्याश्रावयन्ते ओमिति सामानि गायन्ते ओगम् स्वामिशस्त्राणि सगंसन्ते ओमित्यध्वर्यः प्रतिगरम् प्रतिगृणादि ओमिति ब्रह्मा प्रसौदे ओमित्यग्निहोत्रमनुजानादे ओमिति ब्राह्मण प्रवक्ष्यन्नाह ब्रह्मोपाप्रवाणे ब्रह्मैवोपाप्नोदे प्रतञ्चस्वाध्यायप्रवचने च सत्यञ्चस्वाध्यायप्रवचने च तपश्च स्वाध्यायप्रवचने च दमश्च स्वाध्यायप्रवचने च शमश्च स्वाध्यायप्रवचने च अग्नयष्टस्वाध्यायप्रवचने च अग्निहोत्रम् च स्वाध्यायप्रवचने च प्रजातिष्ठितस्वाध्यायप्रवचने च सत्यमितिरत्यवचाराधेत्यः स्वाध्यायप्रवचनेनागोमौज्जल्यः अहम् ऋक्षस्य पृष्ठम् जरे वाजिने वमृतमस्मिनकम् वा सवर्तदम् सुमेधावृथोऽक्षितः इरिप्रशङ्गारेदावचनम् वेदमनोचरास्ते वे सत्यम् वदा धर्मन्तरा स्वाध्यायान् प्रमदः आचार्याय प्रियम् धनमाहत्य प्रजारन्दुम् मा व्यवच्छेत्से सत्यान्न प्रमदितव्यम् धर्मान्न कुशलान्न प्रमजलव्यम् प्रमजलव्यम् स्वाध्यायप्रवचना प्रमजलव्यम् प्रमजव्यम् आचार्यो भव अतिथिरे भव यानि नवद्यानि कर्माणि यानि सेवितव्यानि न वितराणि यान्यस्माकम् सुचरितानि तानि त्वयापास्यानि न वितराणि एकैता ब्राह्मणाः तेषाम् त्वया तनेन प्रश्नव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रियादेयम् ह्रियादेयम् भियादेयम् संविदाेयम् अथलिते कर्मविजिगत्सावाजिगत्सावा स्यात् एतत्र ब्राह्मणाः युक्ताः युक्ताः अलोक्षाधर्मकामास्यो यथा तत्र वर्तेथाः तथाभ्याख्यातेषु एतत्र ब्राह्मणाः युक्ताः युक्ताः अलोक्षधर्मकामास्य यथातेषु भक्तेरन् तथा तेषु भक्ते एषः देशः एष उपदेशः एष वेदोपनिषत् एतदनुशासनम् एवमुपाशितव्यम् एवमुचदुपास्यम् षण् मित्रः संवरुणः छन्नो भवत्परियमः षन्नन्द्रो बृहस्पतिः विष्णुर्वक्रमः नमो ब्रह्मणे नमस्तेवाय त्वमेव प्रत्यक्षम् ब्रह्मादि वामेव प्रत्यक्षम् ब्रह्मालिनम् प्रथमवालिनम् सत्यमवालिनम् तन्मावेद तद्भक्तारमावेद आवेन्माम् आवेलद्भक्तारम् ॐ शान् दिशान् दिशान् दे ओ